अथ त्रयोदशाधिकशततमोऽध्यायः वैशम्पायन उवाच धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविदितम् धनम् भीष्माय सत्यवत्यै च मात्रे चोपजहारसः विदुराय च वै पाण्डुः प्रेषयामास तद्धनं धर्मात्मा धनेन समतर्पयत् ततः सत्यवती भीष्मं कौसल्यां च यशस्विनीं शुभैः पाण्डुजितैरर्थैः तोषयामास भारता ननन्दमाता कौसल्या जयन्तमिव पौलोमि परिष्वज्जनर्षभं तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः सम्प्रयुक्तस्तु कुन्त्या च माद्र्या च भरतर्षभा जिततन्द्रीस्तदा पाण्डुः बभूव वनगोचरः हित्वा प्रासादनिलयं शुभानि च अरण्यनित्यः बभूव मृगया परः सचरं दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः महाशालव रराजकुन्त्यामाद्रा च पाण्डुस्सह वने चरन् करेण्वोरिव मध्यस्थः श्रीमान् पौरन्दरो भारतं सह भार्याभ्याम् खड्गबाणधनुर्धरम् विचित्रकवचं वीरं परमास्त्रविदं नृपम् देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः उपजाहृर्वनान्तेषु धृतराष्ट्रेण चोदिताः अथ पारशवीम् कन्याम् देवकस्य महीपतेः रूपयौवनसम्पन्नाम् सशुश्रावपगासुतः ततस्तु वरयित्वा ताम् आनीयभरतर्षभः विवाहं कारयामास विदुरस्य महामतेह तस्यां चोत्पादयामास विदुरः कुरुनन्दनः पुत्रान् विनयसम्पन्नान् आत्मनः सदृशान् गुणैः इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि विदुरपरिणये त्रयोदशाधिकशततमोऽध्यायः